सत्कृताश्च यथोद्दिष्टान् जग्मुरावसथा नृपाः कैलासशिखरप्रख्यान् मनोज्ञान् द्रव्यभूषितान् सर्वतःसंवृतानुच्चैः प्राकारैः सुकृतैः सितैः सुवर्णजालसंवीतान् मणिकुट्टिमभूषितान् सुखारोहणसोपानान् महासन परिच्छदान् श्रदामसमवच्छन्नानुत्तमा गुरुगन्धिनः हंसेन्दुवर्णसदृशानायोजनसुदर्शनान् बहुधातुनिबद्धाङ्गान्हिमवत्सिकरानि वा विश्रान्तास्ते ततो पश्यन् भूमिपा भूरिदक्षिणं व्रतं सदस्यैर्बहुभिर्धर्मराजं युधिष्ठिरं तत्सदः पार्थिवैः कीर्णं ब्राह्मणैश्च महर्षिभिः भ्राजते यथामरैः इति श्रीमहाभारते सभापर्वणि राजसूयपर्वणि निमन्त्रितराजागमने चतुस्त्रिंशोऽध्यायः